श्रीमद्भागवत्महापुराणं दशं स्कन्ध स्वप्नायुतं नृपसुखं परतन्त्रमीश सस्वद्भयेण मृतिकेण धुरं वहामः हेत्वा तदात्मनि सुखं तदनीह लभ्यं क्लिश्यामहेति भवान तन्नो भवान् प्रणतः शोकहराङ्घ्रियुग्मो बद्धान् वियुङ् मगदाह्वयकर्मपाशात् यो बुभुजो युतं मतङ्गजवीर्यमेको भवने मृगराडि भावी यो वै त्वया दिनवत्कृत्व उदात्त चक्र भग्नो मृधे खलु भवन्तमनन्तवीर्यम् जित्वा निलोकनिरतं शक्लदृढमुदर्पो यस्मत्प्रजारोजति नोजित तद्विधेहि धूतुवाच यतिमागधसंरुद्धा भवदर्शनकाङ्क्षिणः प्रपन्नापादमूलं ते दीनानां संविधीयतां शिशुकुवाच राजदूते ब्रुवन्त्येवं देवरसि परमद्वितिः विभ्रतपिङ्गचिताभारं तादुराशी यथा रविः तं दृष्ट्वा भगवान् कृष्ण सर्वलोकेश्वरेश्वरः दमन्द उत्थितसृष्णा सभभ्य ससभ्य सानुगो मुदा सभाजयित्वा विधिवत् कृतासनपरिग्रहं बभासे शूनृतैर्वाक्यैः श्रद्धया तर्पयन्मुनिम् अपि स्वेसद्य लोकानां त्रयाणां वक्तो भयं ननुभूयान् भगवतो लोकान् पर्यटो गुणः न हि ते विदितं किञ्चिन् लोके स्वीश्वरकर्तुसु अथ पृक्षामहे युष्मान् पाण्डवानां चिकीर्सितम् श्रीनारदु विश्वा मया ते बहुशो दुरत्यया माया विभो विष्वसिजस्य मायिनः भूते सुभूमश्चरत स्वशक्तिभिर्बह्वैरिवच्छन्न रुचो न वेद्भुतं तवेहि तं कोर्हति साधुवेदितुं समायेदं शेतो नियच्छतः यद्विद्यमानात्मतया वभासते तस्मै नमस्ते जीवस्य यः संसरतो विमोक्षणं न जानतो नर्थवः शरीरतः लीलावतारे स्वयस प्रदीपकं प्राज्वल्यत्वा तमहं प्रपद्ये अथाप्याश्रावये ब्रह्म नरलोकविडम्बनं राज्ञप्रयत्रेश्वसेयस्य भक्तस्य च चिकीर्सितम् यच्छति त्वां मखेन्द्रेण राजसूयेन पाण्डवः पारमेश कामो ने तद्भवानानुमोदताम् तस्मिन्देव कृतुवरे भवन्तं वय सुरादयः दुलिक्षुः समेष्यन्ति राजनश्च यशस्विनः श्रवणाद् कीर्तनात् ध्यानात् पूयन्ते ते तौ ब्रह्ममयस्येष किमुतेक्षा विमर्षिणः यस्यामलं दिवियशम्प्रथितं रषायां भूमौच ते भुवनमङ्गलदिग्वितानं मन्दाकिनीति दिवि भोगवतीति चाधो गङ्गेति चैह चरणाम्बुपुनाति विश्वं शेषो उवाच तत्र तेवात्मपक्षेष्व अङ्गृहृत्सों विजिगीषयां वाच पेशैस्मिन् भृत्यम् उद्धवं प्राह केशवः श्रीभगवानुवाच तं हि न परमं चक्षुः श्रीन्मत्रा तद्वी तथात्र ब्रूह्यनुष्ठेयं सद्धमकरवामतन् इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् निदेशं सिरसाधाय उद्भवः प्रत्यभासत ते श्रीमद्भागुते महापुराणे पारमहिंसां शयितायां दशमस्कन्धे उत्तरार्धे भगवद्यानं विचारे सप्तति तपोऽध्यायः